नारदपुराणम् उत्तरार्धम् अध्यायम् सेवेण्टि त्रि अध त्र्यम्बकमाहात्म्यम् मोहिन्युवाच श्रुतं गुरोत्वया प्रोक्तम् पुण्याख्यानं च गौतमम् त्र्यम्बकस्य च गोदापञ्चवडीभवम् अधुना पुण्डरीकपुरोद्भवं यथा तत्र महादेवस्ताण्डवं नृत्यमाचरद तथा वदमहीदेव पुण्यात् पुण्यतरं मम वसुरुवाच भक्तवश्यो महादेवः सद्यो वरद एव च प्राकट्यं यादिभक्तानां करोति च तदिच्छया एकदा जैमिनिर्नाम्रा व्यासशिष्यो मुनीश्वरः अग्निवेश्यादिभि शिष्यैः सार्धं तीर्थान्यडन्नगाद पुण्डरीकपुरं साक्षाद्देवराजपुरोपमम् सर्वदोलङ्कृतं श्रीमत्सर्वर्तुकुसुमद्रुमैः शोभितं शीतलश्चायैः शुभ्रवारिजलाश्रयैः नानावयकुलकीर्णै सुरम्यै कमलाकरैः नारीभिरप्सरोभिश्च नृभिर्विद्याधरद्युभिः विलसद्भवनैः शुभ्रैर्विमानमिव विमानमिवराजदे दृष्ट्वा शोभामुनिस्तस्य पुरस्य प्रीतिमान् भृशं बभूवचमनश्चक्रे स्नातुं तत्र सरोवरे स्निग्धच्छायैर् द्रुमैर्युक्ते नानापुष्पसुगन्धिते विश्रम्य तरुचायाढ्ये तडे तस्य क्षणं मुनिः स्नात्वा नित्या क्रियाश्चक्रे देवर्षि निर्माय पार्थिवं लिंगं विविधैरुपचारकैः पूजयामासविधिवत्पाद्यार्द्याद्यैरनाकुलः गन्धैर्दूपैस्तथा दीपैर्नैवेद्यैर्विविधैरपि पुष्पैः सुगन्धिभिः प्राप्य स्थितो यावदभून्मुनिः तावत्प्रसन्नो भगवान् साक्षात्कारमुपागतः तस्मिन्नेव च मृल्लिङ्गे नानारत्नप्रभोद्गमे ततः स पपाद साक्षाद्देवमुमापदिं पपाददण्डवद्भूमौ पुनरुद्धाय साञ्जलिः प्राह प्रपन्नार्तिहरं हरार्थाङ्गम् हरिं विभुम् जैमिनिरुवाच धन्योऽस्मि कृतकृत्योऽस्मि देवदेवजगत्पदे यस्त्वम् ब्रह्मादिभिर्ध्येयः साक्षान्मद्दृष्टिगोचरः तदप्रसन्नः स विभुर्गिरीशोऽस्य निजम् करम् शिरस्याधायादत्तम् ब्रूहि पुत्र किमिच्छसि तच्छ्रुत्वा वचनं शम्भो जैमिनिः देवं देवम् साम्बं सविघ्नेशम् सुकुमारं विलोकये तदसाम्बः स पुत्रोऽस्य शङ्करो गदः पुनः पुनः प्राहप्रसन्नात्मा ब्रूहि पुत्र किमिच्छसि अथास्य जैमिनिर्वीक्ष्य कृपालुत्वम् जगद्गुरोः स्मयनाः समीक्षे त्वाम् ताण्डवं नडनं गतम् अथ तद्वाञ्छितं कर्तुम् भगवानम्बिकापदिः तस्मारप्रमथान् सर्वान्नाक्रीडा विशारदान् स्मृदमात्रास्तु ते सर्वे नन्दिभृङ्गिपुरोगमाः समाजमुक्प्रजल्पं तत् कौदूकलसमन्विताः सविघ्नेशुमाराम्बं ते नमस्कृत्य स्तु प्राञ्चलयो देवदेवस्याज्ञा समीक्षकाः तदोहरोहराज्ञया विधायरूपमद्भुतं प्रनर्तुमुद्यो बभौ विचित्रवेषभूषणः विलोलनागवल्लजीद्धकक्ष ईशदुत्सिता ननु ललाडशोभितेन्दुलेख ऊर्ध्वदोर्ध्वजः सुहृद्विलिप्तभस्मदेहरुब्जिदेन्दुचन्द्रिको जडा कलापनिस्सरत्सुरापगार्द्रविग्रहः ललाडलोचनोज्ज्वलत् कृशानुतप्तशीदगुः श्रवत्सुधानुजीवितैणभूपकृत्तिहुङ्कृतः कुमारवाहकोके चञ्चुकृष्टनागफुङ्कृतो गलसुधानुजीवदब्जयोनि तुण्डतुङ्कृतः खनिप्रभीदविघ्नराजवाहनाकुचुङ्कृतो मृगेन्द्रनादभीषिताक्षताक्षन्महोक्षभाङ्कृतः मुहुः पदाम्बुजप्रपादकम्पिदा वनीतलः प्रकृष्टवाद्यहृष्टगात्र रोमराजिकण्डकः सुरासुरेन्द्रमौलिरत्नभासिताङ्घ्रिपङ्कजो गणेशकार्तिकेयशैलपुत्रिवीक्षिता ननः प्रवृद्धहर्षभक्तवृन्दसम्यगुक्त संजयः प्रवृत्तताण्डवैर्विभुर्बभौ दिशो वभासयन् अधानं दार्णवेमग्नो दृष्ट्वा नृत्यं महेशिदुः जैमिनिर्वेदपादेन स्तवेनास्तौ समाहितः विष्णु विरिञ्चिविष्णुगिरिश्यप्रणताङ्घ्रिसरोरुहे जगत्सूदे नमस्तुभ्यं देवि काम्बिल्यवासिनि विघ्नेशविधिमार्तण्डचन्द्रोन्द्रोपेन्द्रवं विद नमो गणपदे तुभ्यं ब्रह्मणां ब्रह्मणस्पदे उमाकोमलहस्ताब्जसम्भाविदललाटकम् हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजं शिवं ब्रह्मादि नरः कस्तोतुमर्फति दर्शनार्थे स्तुधिे च साभ्राद्वृष्टिरिवाजनि नमः शिवाय साम्भाय नमः शर्वाय शम्भवे नमो नडाय रुद्राय सदसस्पदये नमः पादभिन्नाय लोकाय मौलिभिन्नाण्डभित्तये भुजभ्रान्तदिङ्गादाय भूतानां पदये नमः क्वणन्ूपुरयुग्माय विलसकृतिवासे फणीन्द्रमेखलाय अस्तु पशूनां पदये नमः कालकालाय सोमाय योगिने शूलपाणये अस्तिभूषाय शुद्धाय जगतां पदये नमः पात्रे सर्वस्य जगदो नेत्रे सर्वदिवौकसां गोत्राणां पदये तुभ्यं क्षेत्राणां पदये नमः शङ्कराय नमस्तुभ्यं मङ्गलाय नमो नमः धनानां पदये तुभ्यमन्नानां पदये नमः आत्माधिपदये तुभ्यं नमो मे धुष्टमाय अष्टाङ्गायादिहृद्याय क्लिष्टभक्तेष्ट शाब्द आयिने इष्टिघ्नाय सुतुष्टाय पुष्टानाम् पदये नमः पञ्चभूताधिपदये कालाधिपदये नमः नम आत्माधिपदये दिशाञ्च पदये, पदये नमः विश्वकर्त्रे महेशाय विश्वभर्त्रे पिनाकिने विश्वहर्त्रेऽग्निनेत्राय विश्वरूपाय वै नमः ईशानते तत्पुरुष नमोघोराय ते नमः वाम देव नमस्तेऽस्तु सद्यो जादाय वै नमः भूदिभूषाय भक्तानां भंगप्रदायिने नमो भवाय भर्गाय नमो रुद्राय मीढुषे सहस्राम्बाय साम्बाय सहस्राभीषवे नमः सहस्रबाहवे तुभ्यं सहस्राक्षाय मीढुषे सुखपोलाय सोमाय सुललाटाय सुभ्रुवे सुदेहाय नमस्तुभ्यं सुमृडीकाय मेढुषे निमित्तोरु निमित्तोरुभयच्छेदकृते सदा नमस्तुभ्यमषाढाय सहमानाय मेढुषे वन्देहम् देवमानन्दसन्दोहं लास्य सुन्दरम् समस्तजगदाम् नाथं सदसत्पदिमद्भुतम् सुजङ्कम् सुन्दरम् क्षौमम् रक्षो भूदक्षदिक्षमम् यक्षे श्रेष्ठम् नमामीशमक्षरम् परमम् प्रभुम् अर्धालकमवस् र्धमस्त्युत्पलदलस्रजम् अर्ध पुंलक्षणं वन्दे पुरुषम् कृष्णपिङ्गलम् सकृत् प्रणदः संसारमहासागरतारकम् प्रणमामितमीशानं जगतस्तस्तुषस्पदिं दादारं जगदामीशं दादारं सर्वसम्पदाम् नेतारं मरुदां वन्दे जेतारमपराजितं तं त्वा मन्दतकनेतारं वन्दे मन्दाकिनीधरं दधाधि विदध्यो मामि मानी त्रीणि वृष्टभा सर्वज्ञं सर्वगं सर्वं कविं वन्दे तमीश्वरम् यतश्च यजुषा सार्धमृजसामानिजज्ञिरे भवन्तं सुदृशं वन्दे भूतभव्यभवन्ति च त्यजन्तीतरकर्माणि यो विश्वाभिप्रपश्यति यो विश्वाभिविपश्यति हरं सुरमियन्तारं हरन्दमहमानदः दा यदाज्ञया जगत् सर्वं व्याप्य नारायणस्थितः तं नमामि महादेवं यन्नियोगादिदं जगद कल्पादौ भगवान् धाधा यथा पूर्वमकल्पयद ईश्वरं तमहं देवं यस्य लिङ्गमहर्निशं यज्जं ते सह भार्याभिरिन्द्रज्येष्ठा मरुद्गणाः नमामि तमिमं रुद्रं यमभ्यर्च्य सकृत्पुरा अवापुस्वं स्वमैश्वर्यं देवाः सपूषरादयः तं वन्दे देवमीशानं यं शिवं हृदयाम्बुजे सततं यत यः शान्तात् उपासदे तदस्मै सददं कुर्मो नमः कमलकन्दये उमाकृच पदोरस्पयाते रुद्रशिवा तनुः नमस्ते रुद्रभावाय नमस्ते रुद्रकेलये नमस्ते रुद्रशान्ध्यै नमस्ते रुद्रमन्यवे वेदाश्वरधनिष्ठाभ्यां पादाभ्यां त्रिपुरान्तकबाणकार्मुकयुक्ताभ्यां का, का, बाहुभ्यामुददे नमः नमस्ते वासुकिज्याय विष्किराय च शङ्करः महदे नमस्ते अस्तु नमः परश वेतेऽस्तु शूलाय हयग्रीवात्मने तुभ्यमुदोद इषवे नमः सुरेधरवधूहारहारिणी हर यानि ते अन्यान्यस्त्राण्यहन्तूण इदं तेभ्यो करं नमः धराधरसुतालीला सरोजा कदबाहवे तस्मै तुभ्य मकोराय नमो अस्माश्रवस्य च रक्ष अनार्थं दीनमापन्ये दरिद्रं नीललोहितं दुष्टं रक्ष मामीश दुर्दशम् आदृशा भवाख्येनाग्निना शम्भो रागद्वेषमदार्चिषा दयालोदह्यमानानामस्माकमविदा भव परदारम् परदारं परवासं परवस्त्रं हरपाहि परान्नम्माम् पुरुणामन् पुरुष्ठदा लौकिकैर्यत्कृतं दुष्टैर्नावमानं सहामहे देवेष्य तव दासेभ्यो भूरिदा भूरि देहिनः कुलोकानाह्म यत्नानां गर्वीणामीश पश्यताम् अस्मभ्यं क्षेत्रमायुश्च वस्सु स्पार्श्वं तदाभर याञ्चादोमकीं लज्जामस्मदीयां कृणानिध्ये त्वमेव वित्सि नस्तूर्नमिदम् स्तोदृभ्य आभर जायामातापिता चान्ये मां द्विषन्त्यमिदं कृशं देहि मे महदिं विद्यां राया विश्वपुषा सह अदृष्टार्थेषु सर्वेषु दृष्टार्थेष्वपि कर्मसु मेरुधन्वन्नशक्रेभ्यो बलं धेहि तनूषु नः लब्धानिष्टसहस्रस्य नित्यमिष्टवियोगिनः हृद्रोगं मम देव्येश हरिमाणं च नाशय मामिह बाधन् दे देवदर्वा निवाधस्वमहानसि त्वमेव रक्षितास्माकमन्यः कश्चिन्न विद्यते तस्मात् स्वीकृत्य देवेश रक्षा नो ब्रह्मणस्पदे त्वमेवो मा पदे मा धम् पिधात्वम् पितामहः त्वमायुस्त्वम् मदिस्त्वं श्रीहृदभ्रातो यतस्त्वमेव देवेश कर्ता सर्वस्य कर्मणः तदः क्षमस्व तत्सर्वम् यन्मया दुष्कृतम् कृतम् त्वत्समो न प्रभुक्त्वेन भल्भृत्वेन चमत्समः ततो देवमहादेवत्वमस्माकम् तव स्मसि सुस्मितम् भस्मगौराङ्गम् तरुणादित्यविग्रहम् प्रसन्नवदनं सौर्म्य गायेत्वा नमसा गिरा एष एव वरोऽस्माकं नृत्यन्तं त्वां सभापदिं लोकयं तमुपापकान्तं पश्येम शरदशदम् अरोगिणो महाभागविद्वांसश्च भगवं त्वत्प्रसादेन जीवेम शरदशदं सदारबन्धुभिः सार्धं त्वदीयं ताण्डवामृदं पिबं धक् काममीशानं नं धाम शरदशदं देवदेव महादेव त्वदीयाङ्घ्रिसरोरुहं कामं मधुमयं पित्वा मो दाम शरदशम् कीडा नागापिशाचा वा ये वा भवे भवे तव दासा महादेव भवाम शरदशदं सभायामिशते देव नृत्यवाद्यगलस्वनं श्रवणाभ्यां महादेव शृणुयाम शरदशतं स्मृतिमात्रेण संसारविनाश न नामानि खलु दिव्यानि प्रब्रवाम शरदशदम् यिषु सन्धानमात्रेण द ध त्रिपुर घोर्जडे आधिभिर्व्याधिभिर्नित्यमजितास्याम शरदशदं चारुचामीपराभासं गौरीकुच पडोरसम् कदानु नु लोकयिष्यामि युवानं विष्पदिं कविं प्रमधेन्द्रावृतम् प्रीदवदनं प्रियवाससं सेव्येकं कदा साम्भं सुभासं शुक्रशोचिषं बह्वेन सं मामहृदपुण्यलेशं च दुर्मदिं स्वीकरिष्यति किं न्वीषो नीलग्रीवो विलोहितः भेदं व्याकुलमानसं कदानुद्रक्ष्यतीशो मां तु विग्रीवो अनातनः गायकायूयमायाद यदि रागादिलिप्सवः धनदस्य सखायम् समुपास्मै गायदा नरः सोऽस्त्यस्तु सखिदे जिह्े विद्यादातुरमापदेः स्तवमुच्चतरं ब्रूहि जयदामिव दुन्दुभिः चेदयाजनशान्तस्त्वं नेदं वेदाखिल जगद अस्य तृप्त्याखिलं शम्भोर्गौरो न सुगन्धिं च सुखस्पर्शं कामदं सोमभूषणं गाढमालिङ्गमच्चित्तं योषाजारमिव प्रियं महामयूखाय महाभुजाय महाशरीराय महाम्बराय महाकिरीडाय महेश्वराय महोमहीं सुष्टुदिमीरयामि यथा कथंचिद्रजिदाभिरीषत्प्रसन्नतश्चारुभिधार प्रसन्नतश्चारुभिरादरेण प्रपूजयामि स्तुतिभिर्महे शाढमुग्रं सहमानमाभिः नमः शिवाय त्रिपुरान्तकाय जगत्त्रयेशाय दिगम्बराय नमोऽस्तु मुख्याय हराय भूयो नमो जघन्याय जबुध्न्याय नमो विकाराय विकारिणे ते नमो, नमो भवायस्तु भवोद्भवाय बहु प्रजात्यन्दविचित्ररूपयदप्रसीदा जगदप्रसूदिः तस्मै रत्ना वृत्ताष्टा पदविष्टराय भस्माम् नरागाय नमः परस्मै यस्मात् परं नापरमस्ति किञ्चिद सर्पाधिराजोषधिनादयुद्धक्षुभ्यजडामण्डलगहहुवराय तुभ्यं नमः सुन्दरताण्डवाय यस्मिन्निधम् सञ्जविचैति सर्वं मुरारिनेत्रार्चितपादपद्ममुमाङ्घ्रिलाक्षापरिरक्तपाणिं नमामि देवं वृषनीलकण्ठं हिरण्यदन्तं शुचिवर्णमाराध अनन्दमव्यक्तमार्चित्यमेघं परं दमाशाम्बरमम्बराङ्गम् आजं पुराणं प्रणमा वियो भनोरणीयान्महदो महीयान् अधस्तमात्मानमजं न दृष्ट्वा भ्रमन्ति मूढा गिरिगह्रिगह्वरेषु पश्चाद् दक्षिणदपुरस्ताद स्विदासी दुपरे स्विदासीद दु इमं नमामीश्वरमिन्दुमौले शिवं महानन्दमशोकदुःखं हृदम् भुजे तिष्ठति यः परात्मा यतश्च सर्वा प्रदिशो दिशश्च महामयेन विलोक्य मां पालय चन्द्रमौले भिषक्रमं दुःखाम्भुराशिं सुकलेशहीनमस्पृष्टपुण्यं बहुबाधगं मां मृत्योकरस्तं भवरक्षभिदम् पश्चात्पुरस्ता दधरादुद्राद गिरीन्द्रजाचारुमुखावलोकसुशीतया देव तवैव वयं दयापूरिदयैव पूर्णमपो न नावा दुरिदातरेम अपार संसारसमुद्रमध्ये निमग्नमुत्क्रोशमनल्परागं ममा क्षमं पाहि महेशजुष्टमो जिष्ठया दक्षिणये वराधिं स्मरन् पुरा सञ्चितपादकानि करं यमस्याभिमुखं व्यमारे विभेमि मे देहि यधेष्टमायुर्यदीक्षिधायुर्यदिवापरेदः सुगन्धिभिसुन्दरभस्म गौरैरनन्दभोगैर्मृदुलैरपोरैः इमं कदा लिङ्गदिमां पिनाहि स्थिरेभिरङ्गैः पुरुरूप उग्रह प्रोशन्तमेषं पतितं भवाब्धौ न पुस्तमण्डूकमिवादिभिु मां रक्षति देवदेवो हिरण्यरूपस्थिरण्य सन्दृक अरुस्मितं चन्द्रकलावतं संगौरी कडाक्षारुहयुग्मनेत्रम् आलोकयिष्यामि कदा नु साम्बमादित्यवर्णं तमसः तानादि ये यूयं शिवं चिन्तयदान्तरेभ्ये ध्यायन्ति मुक्त्यर्थममुं हि नित्यं वेदान्तविज्ञानसुनिश्चितार्थाः आयाधयूयं भवधाधिपत्यकामङ्गहेशङ्गिरिशं यजध्वं एवं पुराभ्यर्च्य हिरण्यगर्भोभूतस्य जाधपधिरेक आसीत् यकायनं ते विपूजां श्रियं ते श्रीकण्ठमेनं सुकृदानमन्तां श्रीमानयं श्रीपदिवन्त्यपादश्रीणामुदारो धरुणो रयीणां सुपुत्रकामा अभिये ये मनुष्या युवानमेनं गिरिशं यजन्तां यदस्वयंभो जगतो वितादा हिरण्यगर्भसमवर्ततार्गे अलं किमुक्तैर्बहुभिस्समीहितं समस्तमस्याश्रयणेन सिध्यति पुरैनमाश्रित्य हि कुम्भसम्भवो दिवाननक्तं परिदो युवाजनि अन्यत्परित्यज्य ममाक्षि भृङ्गात् सर्वं सदैनं शिवमाश्रयध्वम् आम आमोदवानेष मृदु शिवाय स्वा माधु उदायम् भविष्यसि त्वं प्रदिमानहीनो विनिर्जिदाशेष नरामरश्च नमश्च देवाणि महेशमेनं स्तुहि श्रुतं गर्तः सदं युवानं यद्यन्मनश्चिन्तयसि त्वमिष्टं तत्तद्भविष्यत्यखिलं ध्रुवन्दे दुःखेन वृत्तिम् विषये कदाचिद्यक्ष्वा महेसौ मनसाय रुद्रम् अज्ञानयोगादपचारकर्म यत्पूर्वमस्माभिरनुष्ठितं ते दे तदेव सोढ्वा सकलं दयालोपि देवपुत्रान् प्रदिनो जुषस्व संसाराख्यक्रुद्धसर्पेण तीव्रैरागद्वेषोन्मादलोभादिदं दैः दष्टं दृष्ट्वा मां दयालुपिनागी देवस्त्रादात्रा यदामप्रयुच्छन् इत्युक्तां देये समाधेर्नमन्दे रुद्रत्वां देयान्दिजन्मा हि दष्टाः सन्तो निलग्रीव सुसूत्रात्मना सू सन्तत्वा वन्दमानः भवादिभीषणज्वरेण पीडितान् महा मया न शेषपादकालयान दूरकाललोचनान् अनाधनाधदे करेण भेषजेन कालः उदुचुनो वसो महे मृष्यस्व मृषस्वशूरराधसे जये जयेमयेन सर्वमेददिष्टमष्टदिग्गणं भुवस्थलं दिवस्थलं नभस्थलं च तद्गदं ययेष सर्वदेवदानवप्रभुस्वभापदिसनो ददादुतं रयिं बुरुं पिशङ्गृश्यं नमो भवाय ते हराय भूदिभासितोरसे नमो भवाभिभूदिभिदिसङ्गिने पिनाकिने नम शिवाय विश्वदाय हेलयेन यस्य हन्यदेशानीयदे कदाचन सुरपदिपदये नमो नमः प्रजापतिपदये नमो नमः श्रितिपदिपतये नमो नमोऽम्बिकापदय उमापदये नमो नमः विनाय गम्वन्द नमस्तकाक स्वनाद्यसंघृष्टगिरीडमस्तकं नमामि नित्यं प्रणतार्किनाशनं कविं कवीनामुपमश्रवस्तमं देवायुधे यागे विप्रास्ते प्राह्वयं द्वयं विन्दन्दिस्कन्दकं स्कन्दं वन्दे सुब्रह्मण्यों सुब्रह्मण्यों सुब्रह्मण्योम् नमः शिवायै जगदम्बिकायै शिवप्रियायै शिवविग्रहायै समब्र भुवाद्रिपदे सुधाय चतुष्कपर्दा युवदि सुपेशाः हिरण्यवर्णामणि नूपुराङ्क्रिं प्रसन्नवक्त्रां सुखपद्महस्तां विशालनेत्रां प्रणमामि गौरीम् वचोविदं वाजमुदीरयन्दीं नमामि मेनादनयाममेयामि मामु मां कान्दिमलिममेयां करोदि या भूदि सिधौ स्थनौ द्वौ प्रियं सफायं परीक्षस्वजाना कान्दामुमां कान्दनिभाङ्गकान्दिभामुपाता नदहर्यजेन्द्रं नतोऽस्मि यास्ते गिरिशस्य पार्श्वे विश्वानि देवी भुवनानि षष्ठे वन्दे गौरीं तुङ्गपिनस्तनीं तां चन्द्राचूडां कृष्ट सर्वाङ्गरागाम् यैषा दुःखिप्राणिनामात्माकान्तिं देवीं देवीं राधसे चादयन्तीं येनाम वन्दे दीनरक्षाविनोदां मेनाकन्यां मानदानन्ददात्रीं या विद्यानां मङ्गलानां च वाजामेषा नेत्री राधसूनृतानाम् संसारतपोरुभयापभन्द्री भवानी भोज्याभरणयुगभोगे धियंवरां देहि शिवे निरर्गलां ययादि दुरिदातरेम शिवे कथं त्वत्समदाक्व दीयते जगत्कृधिकेलिरयं शिवः पदिः हरिस्तु दासोनुचरीन्दिराशजीसरस्वतिं वा सुभगा दधिर्वसु वसुरुवाच इत्यनेन स्तवेनेशं स्तुत्वेद्धं स महामुनिः स्नेहाश्रुपूर्णनयनप्रणनामसभापतिं मुहुर्मुहुपिभन्नीशं ताण्डवामृतमङ्गलम् सर्वान् कामानवाप्यम् देगाणपत्यमवापः इमंस्तवम् जैमिनिना वचोदिदम् द्विजोत्तमो यः पठतिह भक्तिदः तमिष्टवाक्सिद्धिमधि धृति श्री यः परिष्वजन्ते जनयो यथापदिम् महीपतिर्यस्तु युयुत्सुरादरादमुं पठत्यस्य तथैव सादराद प्रयान्तिशेखरं प्रमदान्तकान्तिकं धियं दधानाहृदयेषु शत्रवः त्रैवर्णिकेष्वन्यतमो ययेन नित्यं कदाचित् पठतीशभक्तिदः कले वरान्ते शिवपार्श्ववर्ती निरञ्जनसाम्यमुपैधिदिव्यं लभं ते पठन्तो मदिं बुद्धिकामा लभं ते तथैव श्रियं पुष्टिकामाः लभन् धान्यं नरा धान्यकामा लभन् पुत्रान्नरा पुत्रकामाः पादम् वाप्यर्थपादम् वा श्लोकम् शोक श्लोकार्थमेव च यस्तु धारयते नित्यम् शिवलोकम् स गच्छति यत्र नृत्तम् शिवश्चक्रे ताण्डवम् तत्स्थलम् शुभे पुण्यात् पुण्यधरम् तीर्थम् तत्र स्नात्वा विमुच्यते यस्तत्र गुरुदे श्राद्धम् पितॄणाम् पूर्वजांस नये स्वर्गं नात्र कार्याविचारण दां सुवर्णं धरां शय्यां वस्त्रमातपवारणं पानमन्नं द्विजे दद्या तत्र तत्सर्वमक्षयं येददाख्यानकं पुण्यं पुण्डरीकपुरुद्भवं शृणोया श्रावयेद्वाभि सोऽभि रुद्रप्रियो भवेद इति श्री बृषन्नारदीयपुराणे बृषदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे त्र्यम्बकेश्वरमाहात्म्ये वेदपादस्तवो नाम त्रिसप्ततितमोऽध्यायः इति त्र्यम्बकेश्वरज्योतिर्लिङ्गमाहात्म्यं सम्पूर्णम् ओम्